नारदपुराणं पूर्वार्थम् अध्यायम् हण्ड्रेड् एण्ड् फोर् ब्रह्मोवाच शृणुवत्स प्रवक्ष्यामि पुराणं स्कन्दसंज्ञकं यस्मिन् प्रतिपदं साक्षान् महादेवो व्यवस्थितः पुराणे शतकोटो तु यच्चवं मया लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः स्कन्दाह्वयस्तत्र खण्डा सप्तैव परिकल्पिताः एकाशीतिसहस्रं तु स्कान्तं सर्वोकृन्दनं यशृणोदि पठे द्वापि सदु साक्षाच्चिवस्थितः यत्र माघेश्वरा धर्माषण्मुखेन प्रकाशिताः कल्पे तत्पुरुषे वृत्ता सर्वसिद्धिविधायकाः तस्य माष्येश्वरश्चाथ कण्ठपापप्रणाशनः किञ्चिन्न्यूनार्कसाहस्रो बहु पुण्यो बृहत्कथः सुचरित्रसदैर्योक्तदस्कन्दमाहात्म्यसूचकः यत्र केदारमहात्मे पुराणोपक्रह्म पुरा दक्षयज्ञकथा पश्चाच्चिवलिङ्गार्चने फलम् समुद्रमधनाख्यानम् देवेन्द्रचरितम् तदः पार्वत्या समुपाख्यानम् विवाहस्तदनन्तरम् कुमारोत्पत्तिकथनं तदस्तारकशङ्करः तदः पाशुपदाख्यानम् चण्डाख्यानसमन्वितं द्यूतप्रवर्तनाख्यानं नारदेन समागमः तद कुमारमाहात्म्ये पञ्चतीर्थकथानकम् धर्मवर्मनृपाख्यानं भावस्तदोमाह्या कथा दमनकस्य च महीसागरसंयोगकुमारेश कथा तदः तदस्तारकयुद्धम् च नानाख्यानसमन्वितम् वधश्च तारकस्याध पञ्चलिङ्गनिवेशनम् द्वीपाख्यानं तद पुण्यमूर्धलोकव्यवस्थितिः ब्रह्माण्डस्थितिमानम् च वर्करेश कथानकम् महाकालसमुद्भूतिकथा चास्य महाद्भुधा वासुदेवस्य मासात्म्यं कोटितीर्थं ततः परं नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितं पाण्डवानां कथा पुण्यामहाविद्याप्रसाधनं तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् अरुणाचलमाहात्म्यम् सनकब्रह्म सम्कथा गौरी तपसमाख्यानम् तत्तत्तीर्थनिरूपणम् माहे शासुरमाख्यानम् वधच्चास्य महाद्भुतः द्रौणाचले शिवास्थानम् नित्यदा द्वितीयो वैष्णवखण्डस्तस्याख्यानानि मे शृणु प्रथमम् भूमिवाराहसमाख्यानम् प्रकीर्तितम् यत्र वेङ्कटबुद्धस्य माहात्म्यम् पावनाशनम् कमलाया कथा पुण्या श्रीनिवासस्थितिस्ततः कुलालाख्यानकञ्चात्र सुवर्णमुखरी कथा नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता मदङ्गाजनसंवादकीर्तितपापनाशनः मा पुरुषोत्तम मासात्म्यम् कीर्तितम् चोत्कले ततः मत्तण्डेयसमाख्यानमम्बरीशस्य भूपतेः इन्द्रद्युम्नस्य चाख्यानम् विद्यापतिकथाशुभा जैमिने समुपाख्यानम् नारदस्यापि वाटव निलकण्ठसमाख्यानम् नरसिंहोपवर्णनम् अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा रथयाव्रा विधिपश्चाज्जन्मस्थानविधिस्तथा दक्षिणामूर्त्युपाख्यानं गुण्डिवाख्यानगं तदः रथरक्षविधानं च शयनोत्सवकीर्तनम् स्वेदोपाख्यानमन्त्रोक्तम् पृथुत्सवनिरूपणं दोलोत्सवो भगवतो व्रदं सांवत्सराभिधं पूजा चाकामिका विष्णोरुद्धालकनियोगतः योगसाधनमन्त्रोक्तं नानायोगनिरूपणं दशातारकथनं स्नानादिपरिकीर्तनं तदो बदरिकायाश्च माहात्म्यं पापनाशनम् आज्ञादितीर्थमाहात्म्यं वैनदेयशिलाभवं कारणं भगवद्वासे तीर्थं पापालमोचनम् पञ्चधाराभिधं तीर्थं मेरु संस्थापनं तथा तदकार्तिकमाहात्म्ये माहात्म्यं मदनालसं धूम्रकेशसमाख्यानं दिनकृत्यानि कार्तिके पञ्च कीर्तिदं भुक्तिमुक्तिदम् तदो मार्गस्य विधानं स्नानजं तथा पुण्ड्रादिकीर्तनं चात्रमालाधारणपुण्यकं पञ्चामृतस्नानपुण्यं खण्डानादादिजं फलं नानापुष्पार्चनफलं तुलसीदलजं फलं नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम् अखण्डैकादशी पुण्यं तथा यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम् ध्यानादिपुण्यकथनम् माहात्म्यम् मधुरा भवम् मधुरात् तीर्थमाहात्म्यम् पृथगुप्तम् ततः परम् वनानाम् द्वादशानां च माहात्म्यम् कीर्तितं ततः श्रीमद्भागवतस्यात्र माहात्म्यं कीर्तितम् परम् वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम् तदो ततो माघस्य माहात्म्यं स्नानदानजपोद्भवं नानाख्यानसमायुक्तं दशाध्यायाय निरूपितं तदो वैष्णवमाहात्म्ये शय्यादानादिजं फलं जलदानादिविधय पामाख्यानमतः परं श्रुतदेवस्य चरितम् व्याधो व्याधोपाख्यानमद्भुतं तदाक्षय तृतीयादेर्विशेष पुण्यकीर्तनं तदस्त्वयोध्या महात्म्ये चक्रब्रह्मत्वके सुरापापविमोक्षाख्ये तथाद्धारसहस्रकं स्वर्गद्वारं चन्द्र हरिधर्म हर्युपवर्णनं स्वर्ण वृष्टेरुपाख्यानं तिरोधा सरयूयुधिः सीताकुण्डं गुप्तहरि सरं युहर् करान्वयः गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम् सोमार्कादीनि तीर्थानि त्रयोदश ततः परं गया कोपस्य माहात्म्यं सर्वाकविनिवर्तकम् माण्डव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम् अजितानि मानसादितीर्थानि गदितानि च इत्येष वैष्णवखण्डोद्वितीयपरिकीर्तितः अतः परं ब्रह्मखण्डं मरीजे शृणुपुण्यदं यत्र वैसेतुमाहात्म्ये फलं स्नाने क्षणोद्भवं गालवसि तपश्चर्य ततः चक्रतीर्थादिमाहात्म्यं देवीपत्नतं युगे वेदालतीर्थमहिमा पावनाशादिकीर्तनं मङ्गलाधिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनं हनुमत्कुण्डमहिमा गत्यतीर्थभवं फलं रामतीर्थादिकधनं लक्ष्मीतीर्थनिरूपणं शङ्खादितीर्थमहिमा तथा साध्यामृदादिजः धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजम् तथा गायत्र्यादिकीर्थानां दा चात्र कीर्तितम् रामनाथस्योपदेशनम् यात्राविधानकथनं शेते मुक्तिप्रदम् नृणान् धर्मारण्यस्य माहात्म्यं तथा परमुदीरितम् तानुत्कन्धाय भगवान्यत्र तत्त्वमुपादिशत धर्मारण्यसुसम्भूतिस्तत्पुण्यपरिकीर्तनम् कर्म सिद्धे समाख्यानम् ऋषिवंशनिरूपणम् अप्सरतीर्थमुख्यानाम् माहात्म्यम् यत्र कीर्तितम् वर्णानामाश्रमाणाम् च धर्मतत्त्वनिरूपणम् दिवस्थानविभागश्च बकुलार्ककथा शुभा चत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी पुण्यदा च समाख्यादा लोहासुरसमाख्यानम् गङ्गागोपनिरूपणम् श्रीरामचरितम् चैव सत्यमन्दिरवर्णनम् जीर्णोद्धारस्य कथनमासनप्रतिपादनम् जातिभेदप्रकथनम् स्मृतिधर्मनिरूपणम् ततस्तु वैष्णवधर्म नानाख्यानैरुदीरिदाः चादुर्मास्ये ततः पुण्ये सर्वधर्मनिरूपणम् दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः तपश्चैव पूजाया सच्चिद्रकथनम् ततः तद्वृत्तिनाम् भिदाख्यानं शालग्रामनिरूपणम् भारकस्य वधोपायो वृक्षा महिमा तथा विष्णोशापश्च वृक्षत्वम् पर्वत्यनुतपस्ततः ता हरस्य ताण्डवम् नृत्यम् रामनाम निरूपणम् हरस्य लिङ्गपतनम् कथा वैजवनस्य च पार्वतीजन्मचरितम् तारकस्य वदोद्भुतः प्रणवैश्वर्यकथनं तारकाचरितं पुनः दक्षयज्ञसमाप्तिश्चत्वादशाक्षरभूषणम् ज्ञानयोगसमाख्यानम् महिमाद्वादशाक्षरेः श्रवणादिकपुण्यं च कीर्तिदम् शर्मदम् नृणां ततो ब्राह्मोत्तरे भागे शिवस्य महिमाद्भुतः पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः शिवरात्रैष्टमहिमा प्रदोषव्रतकीर्तनं सोमवारव्रतम् चापि सीमं तिन्या कथानकं भद्रायुत्पत्तिकथनं सदाचारनिरूपणं शिववर्म समुद्देश्यो भद्रायूद्वाकवर्णनम् भद्रायुमहिमाचापि भस्ममाहात्म्यकीर्तनं शबराख्यानकं चैव उमामाहेश्वरं व्रतं रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् श्रवणादिकपुण्यं च ब्रह्म खण्डोयमीरिदः अधः परं चतुर्धदु काशीखण्डमनुत्तमम् विन्ध्यनारदयोर्यत्र संवादपरिकीर्तितः सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः पतिव्रतचरित्रम् च तीर्थयात्रा प्रशंसनम् ततश्च सप्त तुल्याख्या संयमिन्या निरूपणम् च तद्धेन्द्राग्नो न्योर्लोकापि शिव शर्मणः अग्निसमुद्भवश्चैव क्रव्याद्वरुणसम्भवः गन्धवत्यलका पुर्योरीश्वर्याश्च समुद्भवः चन्द्रार्कबुधलोकानां भुज्यार्कभुवाङ्क्रमाद मम विष्णो ध्रुवस्यापि तपोलोकस्य वर्णनं ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणं स्तन्दागस्त्य समालापो मणिकर्णीसमुद्भवः प्रभावश्चापि गङ्गाया गङ्गानाम सहस्रकं वाराणसी प्रशंसाजभैरवाविर्भवस्ततः दण्डपाणिज्ञानवाप्यो हृद्भवत् समनन्तरं तथा कदावत्याख्यानं सदाचारनिरूपणं ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च कृत्याकृत्य विनिर्देशो ह्यविमुक्तो अविमुक्तेशवर्णनं ब्रीहस्थयोगिनो धर्मकालज्ञानं ततः परं दिवो दासकथा दा पुण्याकाशिका वर्णनं ततः माया गणपतिष्टाध भूवि प्रादुर्भवस्ततः विष्णुमाया प्रपञ्चोध दिवो दासविमोक्षणं तद पञ्चनतोत्पत्तिर्बिन्दुमाधवसम्भवः तदो वैष्णवतीर्थाख्या शूलेन काशिकागमः जैगीषव्येन संवादो महेशिधुः क्षेत्रख्यानं कन्दुकेशः व्याक्रेश्वरसमुद्भवः शैलेशरत्नेश्वरयो कृतिवासस्य चोद्भवः देवधनमधिष्ठानं दुर्गासुरपराक्रमः दुर्गाय विजयश्चाद ओङ्कारेशस्य वर्णनं पुनरोङ्कारमाकात्म्यत्रिलोचोन समुद्भवः केदाराख्या च धर्मेश कथा विष्णुभुजोद्भव वीरेश्वरसमाख्यानम् गङ्गामाहात्म्यकीर्तनम् विश्वकर्मेशमहिमा दक्ष विश्वेश विभवश्चाथ ततो यात्रापरिक्रमः अध परं त्ववं त्याख्यं शृणुकण्ठ चम्पञ्चकं महाकालवनख्यानं ब्रह्मशीर्षच्चिदातदः प्रायच्चित्ता विधिश्चाग्नेरुत्पत्तिश्च सुरागमः देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् कपोलमोचनाख्यानं महाकालवनस्थितिः तीर्थं कनकदेशस्य सर्वपापप्रणाशनं कुण्डमप्सरसंज्ञं च सरोरुद्रस्य पुण्यदं कुडवेशं च विद्याघ्रं मर्कटेश्वरतीर्थकं शङ्करागन्धर्वतीर्थं पापप्रणाशनं दशाश्वमेधिकानं च तीर्थे च हरिसिद्धितं तिशा च कादियात्रा ज हनुमत्कवचेश्वरौ महाकालेश यात्रा ज वल्मीकेश्वरतीर्थकं शुक्रे च प्रदक्षिणाः अक्रूरसज्ञेकपादं चन्द्रार्कवैभवं करभेशाख्यतीर्थं च लडुकेशादितीर्थकं मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकं केदारेश्वर रामेश सौभाग्येश नरार्ककं केशवार्कं शक्तिभेदं स्वर्ण सारमुखानि च ओङ्कारे शादितीर्थानि अन्तकश्रुतिकीर्तनम् कालारण्यलिङ्गसङ्ख्या स्वर्णशृङ्गाभिधानकं कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकं पद्मावती वै कुमुद्वत्यमरावधिनामकम् विशालप्रतिकल्पाभिधानं च ज्वरशान्तिकम् शिवानामादिकफलं नागोद्गीता शिवस्तुतिः हिरण्याक्षवदख्यानं तीर्थं सुन्दरकुण्डकं नीलगङ्गापुष्कराख्यं विन्ध्यवासनतीर्थकं पुरुषोत्तमाभिधानं दुत्तत्तीर्थं चाकनाशनम् कोमदिवामनं कुण्डो विष्णोर्नामसहस्रकम् वीरेश्वरसरकलभैरवस्य च तीर्थकम् महिमानागपञ्चम्या नृसिंहस्य जयन्तिका कुटुम्बेश्वरयात्रा च देवसाधककीर्तनं तर्कराजाख्यतीर्थं च विघ्नेशादि सुलोकनं रोन्द्रकुण्डप्रभृदिषु बहुतीर्थनिरूपणं यात्राष्टतीर्थजापुण्यरेवा माहात्म्यमुच्यते धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन सङ्गमः प्रागीयानुभवाख्यानमृता परिकीर्तनं कल्पे कल्पे पृथं नाम नर्मदाया प्रकीर्तितं स्तवमार्षं नामेदं च कालरात्रिकथा ततः महादेवस्तुधि पश्चात् पृथक् कल्पकधाद्भुदा पच्चा जालेश्वरकधा तथा गोईव्रत समाख्यानं त्रिपुरज्वालनं ततः देहपादविधानं च कावेरीसङ्गमस्ततः दारुतीर्थं ब्रह्मवर्तं यत्रेश्वरकथानकम् अग्नितीर्थं रवितीर्थं मेघनादादिदारुकं देवतीर्थं नर्मदेशं कपिलाख्यं करञ्जकं कुण्डलेशं विप्पलादं विमलेशं च शूलभिदशचीकरणमाख्यानमभ्रकस्य वधस्ततः शूलभेदोद्भवो यत्र दानधर्मा पृथग्विधाः आख्यानं दीर्घ तपस हृष्यशृङ्गकथा ततः चित्रसेन कथा पुण्य काशीराज्यस्य लक्षणं ततो देव शिलाख्यानं शबरीतीर्थकान्विधं व्याधाख्यानं तत् पुण्यं पुष्परिण्यर्कतीर्थकम् आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम् कुमारेश मगस्त्येष मानं देशं च मातृजं लोकेशं धनदेशं चा चा नागेशं चाभि गोपारं गौतमं सङ्गचूडकं नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम् दधे स्कन्दादितीर्थानि हनुमतेश्वरं ततः रामेश्वरादितीर्थानि सोमेशं पिङ्गलेश्वरम् ऋणमोक्षं कलेशं पूदिकेशं जलेशयं चान्दार्कं यमतीर्थं च काल्कोडीशं वनाजिके नारायणं च कोडीशं व्यासतीर्थं प्रभासकं नागेशसङ्कर्षणम् श्रयेश्वरतीर्थकम् ऐरण्डी सङ्गमं पुण्यं सुवर्णशिरतीर्थकं करं जं कामहं तीर्थं भाम् धीरोहिणी भवं चक्रतीर्थं दौतपापं स्कन्द माङ्गिरसाह्वयं कोडितीर्थमयोन्यख्यं मङ्गराख्यं त्रिलोचनम् इन्द्रेशं कम्बुकेशं च सोमेशं कोहनं शकं चा नार्मदं चार्कमाग्नेयम् भार्गवेश्वरमुत्तमं रमं दैवं च मार्गेशमाधिवाराघकेश्वरं रामेशमदसिद्धेशमाहल्यं कङ्कडेश्वरं शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवं योजनेशम् राहेशं द्वादशी शिवतीर्थकं सिद्धेशं मङ्गलेशं च लिङ्गवाराकतीर्थकं कुण्डेशं श्वेदवाराकं गर्भावेशं रवीश्वरं शुक्लादीनि च तीर्थानि हुङ्गारस्वामितीर्थकं सङ्गमेशं नहुशेषं मोक्षणं पञ्चगोपकम् नागशामं च सिद्धेशं मार्दण्डाङ्क्रूरतीर्थके कामोदशूलारोपाग्ये माण्डव्यं गोपकेश्वरं कपिलेशं पिङ्गलेशं भूदेशं गाङ्गगौधमे आश्वमेधं भृगुकच्छं केदारेशं च पापनुद कलकलेशं जालेशं शालग्रामं वराहकम् चन्द्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकं मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकं शिखीर्षं च दशकन्यं सुवर्णनकम् ऋणमोक्षं भरभूतिपुङ्कां मुण्डिं च डिण्डिमम् आमलेशं कपालेशम् शृङ्गैरण्डीभवं ततः कोडितीर्थं लोडणेशं धलस्तुतिरतः परं त्रिमि जङ्गलमाहात्म्ये रोहिताश्वकथा ततः धुन्धुमारसमाख्यानं वधोपायस्ततोऽस्य वै वधौ धुन्दोस्तदपश्चात् ततश्चित्रवहोद्भवः महीमास्य ततश्चण्डीशप्रभावो रतीश्वरः केदारेशो लक्षतीर्थं ततो विष्णुपदी भवं मुकारं चवनान्धास्यं ब्रह्मणश्च सरस्ततः चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयं रुद्रावर्तं चमर्कण्डं तीर्थं पापप्रणाशनं श्रवणेशं शुद्धपडं देवान्धुप्रेततीर्थकम् जिह्वोदतीर्थं सम्भुद्धिशिवो बन्दम् फलस्तुतिः येष खण्डो ह्यवन्त्याख्यशृण्वतां पापनाशनः अधपरनागराख्यखण्डषष्ठोऽभि लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा विश्वामित्रस्य माहात्म्यं त्रिशङ्घुस्वर्गतिस्तथा हाडकेश्वरमाहात्म्ये वृत्रासुरवधस्तथा नागपिलं शङ्कतीर्थमाचलेश्वरवर्णनं चमत्कारपुराख्यानं चमत्कारकरम्परं गयशीर्षं बालशाख्यं बालमन्दं मृगाक्वयम् विष्णुपादं जगोकर्णं युगरूपं समाश्रयः सिद्धेश्वरं नागसरसप्तार्षेयं ह्यगस्त्यकं भ्रूणकर्तं नलेशं च भैष्मं वैडुरमर्पकं सोमनाधं सोमनाथं च दौर्गमादर्जकेश्वरम् धाख्यानं क्षत्रियकथानकं रामहृदं नागबुरं षड्लिङ्गं चैव यज्ञभूःकार्कं च सदी परिणयम् रुद्रशेषं च यागेशं वालकिल्यं जगाजं लक्ष्मीशापसप्तविंशसोमप्रासादमेवज अम्बा बद्धं पाण्डुपाख्यमाग्नेयं ब्रह्मकुण्डकं गोमुखं लोकयष्ट्याख्यमजापालेश्वरी तथा शानैष्ठरं राजवाभिरामेशो लक्ष्मणेश्वरः कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकं ततो वैरेव भक्तिकातीर्थसम्भवः क्षेमङ्गरी च केदारं शुक्लतीर्थमुकारकम् सत्यसन्धेश्वर आख्यानं तथा कर्णोत्पला कथा अडेश्वरं याज्ञवल्क्यगौर्यं गणेशमेव च तदो वास्तुपदाख्यानम् अजागृहकथा नगं सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम् मृष्टान्नेदश्वराख्यानं गाणापत्यत्रयं तदः जाबालिचरितं जैवमकरेशकथा तदः कलेश्वर्यं धकाख्यानं कुण्डमाप्यरसं पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्तनम् भार्गवम् चरितम् चैव वैश्वामैत्रम् ततः परम् सरस्वतम् पैपलादम् च पैण्डकम् ब्रह्मणो यज्ञचरितम् सावित्र्याख्यानसंयुतम् दैवदम् भार्त यज्ञाख्यम् मुख्यतीर्थ निरीक्षणम् कौरवम् आडगेशाख्यं प्रभासं क्षेत्रकत्रयम् कौष्करं नैमिषं धर्ममरण्यत्रदयं स्मृतं वाराणसी द्वारकाख्या वन्द्याख्येदिपुरित्रयं वृन्दावनं काण्डवाख्यमद्वैकाख्यं वनत्रयं कल्पशालस्तदा नन्दिग्रामत्रयमनुत्तमम् असि शुक्लपितृसंज्ञं तीर्थत्रयमुदाहृदं श्यबुदौ जैवतश्चैव पर्वतत्रयमुत्तमं नदीनान्द्रदयम् गङ्गा नर्मदाज सरस्वती सार्धकोडित्रयबलं मेकैकं चैषुकीर्तितं कूशिकाशङ्खतीर्थं चामरकं बालमण्डनम् आडकेशक्षेत्रफलप्रथं प्रोक्तं चतुष्टयं श्राद्धकल्पं यौधिष्ठिरमधान्धकम् जलशायि चतुर्मासमशून्यशयनव्रतम् मङ्गणेशम् शिवरात्रि स्थूला पुरुषदानकम् पृथ्वीदानं वानकेशं कपाल मोचनेश्वरम् पापण्डमासलैगम् युगमानादिकीर्तनं निवेश शाकम्भर्याख्या रुद्रैकादशकीर्तनम् दानमाहात्म्यकधनं द्वादशादित्यकीर्तनम् इत्येष धुनोच्यदे सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महद सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् अग्नितीर्थं कदर्शीं केदारे शङ्कदिप्रदं भीमभैरवचण्डीश भास्करेन्दुकुजेश्वराः बुधेर्य भृगुसौरागशिरवीशा हरविग्रहाः सिद्धेश्वराध्या पञ्चान्ये रुद्रास्तत्र वरारोहाय्यजापाला मङ्गला ललललललितेश्वरी लक्ष्मीशोवाडवेश चोर्वीश कामेश्वरस्तथा गौरीश वरुणेशाख्यं दुर्वासेशं गणेश्वरम् कुमारेशं दण्डकल्पं शकुलीश्वरसंज्ञकं तद प्रोक्तोकोडीशबालब्रह्यादिसत्कथा नरकेश संवर्तेश निधीश्वरकथा तदः बलभद्रेश्वरस्याध गङ्गाया गणपस्य च जाम्बवत्याख्यसरितः पाण्डुकूपस्य सत्कथा शतमेधलक्ष्मेधकोणिमेधकथा तथा दुर्वासार्थकडस्थानहिरण्यासङ्गमोत्कथा नगरार्कस्य कृष्णस्य सङ्घर्षणसमुद्रयोः कुमार्याः क्षेत्रपास्य ब्रह्येशस्य कथा पृथक् पिङ्गलासङ्गमेशस्य शङ्करार्ककटेशयोः ऋषितीर्थस्य नन्दार्ककृतकूपस्य कीर्तनं स सोपानस्य पर्णार्कण्यं कुमत्योकथाद्भुधा वाराहस्वामिवृत्तान्तं चाया लिङ्गाक्यगुल्पयोः कथाकनकनन्दाय कुजी गङ्गेशयोस्तर्था चमसोद्भेदविदुरत्रिलोकेश कथा ततः मङ्कणे शत्रैपुरेश षण्डतीर्थकथास्तथा सूर्यप्राचित्रीक्षणयोमानादकथा तथा भूधारशूलस्तलयोश्च्यवनार्केशयोस्तथा अजापालेश्च बालार्क कुबेरस्तलजा कथा ऋषितो कथा पुण्या सङ्गालेश्वरकीर्तनं नारदादित्यकथनं नारायणनिरूपणं तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनं चतुर्वक्त्रगणाध्यक्षकलम्बेश्वरयो कथा गोपालस्वामिव कुलस्वामिनोर्मरुदां कथा यमार्कोन्नदविघ्नेशजलस्वामि कदा ततः कालमेकस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः शङ्कावर्तमोक्षतीर्थगोष्पदाच्युदसत्मनां जालेश्वरस्य तुङ्कारेश्वरचण्डीशयो कदा आशापुरस्तविघ्नेश कलाकुण्डकथाद्भुदा कपिलेशस्य च कथा जरद्गव शिवस्य च नलर्क का, नलकर्कोडेश्वरयोर्डकेश्वरजा कथा नारदेशयन्द्रभूषदुर्गकूटगणेशजा सुपर्नैलाग्यभैरव्योर् भवा कथा कीर्तनं कर्दमालस्य गुप्तः सोमेश्वरस्य च बहुस्वर्णेशृङ्गेश कोडीश्वरकथा ततः मार्कण्डेश्वरकोडीश दामोदर गृहोत्कथा स्वर्णरेखा ब्रह्मकुण्डं कुन्दी भीमेश्वर उ तथा मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतं दुर्गाभिल्लेश गङ्गेश्वरैवतानां कथाद्भुदा ततोर्बुद्धेश्वर कथा अचलेश्वरकीर्तनं नागतीर्थस्य च कथा वसिष्ठाश्रमवर्णनं भद्रकर्णस्य माकात्म्यम् त्रिनेत्रस्य ततः परं केदारस्य जमाहात्म्यं तीर्थाङ्गमनकीर्तनं कोडीश्वररूपतीर्थहृषीकेश कथारस्ततः सिद्धेश शुक्रेश्वरयोर्मणि कर्णीशकीर्तनं पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनं चन्द्रप्रभासर् पिडोदश्रीमादा शुक्लतीर्थजं कात्यायन्यश्च माहात्म्यं तथा पिण्डारकस्य च तद कनकलस्याद चक्रमानुषतीर्थयोः कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा गणेशपार्थेश्वरयोग्यान्त्राया उज्ज्वलस्य च चण्डीस्थान नागोद्भवशिवकुण्ड महोज महोज कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः उद्दालकशसिद्धेशगदीथकथापृथः श्रीदेव रवातोत्पत्तिश्च व्यास गौतमतीर्थयोग कुलसन्तारमाहात्म्यं रामकोट्याह्वतीर्थयोः चन्द्रोद्भेदेशान शृङ्गब्रह्मस्थानोद्भवोद्भुतं त्रिपुष्कर रुद्रह्रद गुहेश्वरकथाशुभा अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च महौ जसप्रभावश्च जम्बूतीर्थस्य वर्णनम् गङ्गाधरमिश्रकह्यो कथा वादफलस्तुतिः द्वारकायाश्च महात्म्ये चन्द्रशर्मकथानकं का जागराद्यर्चनाद्याख्याव्रतमेकादशी भव महाद्वादशिकाख्यानं प्रह्लादर्शि समागतः समागमः दुर्वासत उपाख्यानं गोमत्युत्पत्तिकथनं तस्यां स्नानादिजम् फलं चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसङ्गमः शनकादिह्रदाख्यानं नृगतीर्थकथा तदः गोप्रचारकथा पुण्या गोपीनां द्वारकागमः गोपीसरसमाख्यानं ब्रह्मतीर्थादिकीर्तनम् पञ्चनद्यागमाख्यानं नानाख्यानसमन्वितं शिवलिङ्गगदातीर्थकृष्ण पूजादिकीर्तनम् त्रिविक्रमस्य मूर्ताख्या दुर्वासकृष्ण सम्कथा कुशदैत्यवधोचार विशेषार्णजं फलम् गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् कृष्णमन्दिरसम्प्रेक्षाद्रारवत्याभिषेचनम् तत्र तीर्थावासकथा द्वारका पुण्यकीर्तनम् इत्येष सप्तमप्रोक्तखण्ड प्राभासिको मध्याम सत्त विप्राय स मोददेपदे मोदे श्री बृहनारदीयपुराणे पूर्वभागे बृहदुपाख्या चतुर्धे स्कंदपुराणी वर्णन नाम चुकशतमोध्याय ओम